पनाशं परेशङ् गजेन्द्रस्य कृप्ति वसाम् जटाजूडमध्ये पुरगाङ्गवारि महादेवमेकं स्मरामि स्मरा महेशं सुरेशं सुराराधिनाशं विभुं विश्वनाथं विभुत्यङ्गभूषं विरूपाशमिन्द पञ्चवक्त्रम् गिरीशं गणेशं गले हीलवर्णं गवेदाधिरूढं गुणातीतरूपम् भवान् ूरिन् जटजूटिन् त्वमेको जगद्व्यापको विश्वरूपो प्रसीद प्रसीद प्रभो पूर्णरूप परात्मानमेकं जगद्बीजमाद्यं निरेकं निराकारमोकारवेद्यं यतो जायते पाल्य न चाकाशमासे न निद्रा न चोष्ठं न शीतं न देशो नरेषु न यस्य कारणानां शाश्वत कारण कम शिव केवल भासक भासका तम पारंतन प्रपथ पावनम्वत नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते नमस्ते नमस्ते तपो नमस्ते नमस्ते श्रुतिज्ञानगम्य पाणि विभो विश्वनाथ महादेव शम्भो महेश त्रिनेत्र शिवाकान्तशान्त मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो शम्भो महेश करुणामय शूलवाणी गौरीपते पशुपते पशुपाशनहासिं काशीपते करुणया जगदेतदेकः त्वं हंसिपासि विदधासि महेश्वरासि त्वगद्भवति देव भव स्मरारे तिष्ठति जगन्मृड विश्वराध त्वय्येव गच्छति लयम् जगदेरदीश लिङ्गात्मके कर चराचर विश्वरूपि